रमां अभया वरदा नररूपपधराम जनता पहराम शरणगतसे वतोसकरे प्रणमामि परा धन जगता गुणहे नशोतान् तपराधयोतान् विपराद्यसबो धरबो भगता तरणीं भवसा गरपार करें प्रणमामि परा जगता विषयं कुसुमं परिहृत्य सदा चरणाम्बुरुहा विदशान्ति सुधां पिबभृङ्गमनो भवरोग राम् प्रणमामि पराम् जगता कृपां कुरु महादेवी सुतेषु सु द्रणतेषु च चरणाश्रयता ना। दीन कृपामयी नमो स्तुते दजा पटा वृते नित्यम् सारदायिके पापेभ्यो न तदारक्ष कृपामयि नभोस्तु ते राम तन्नामश्रमणप्रिया तद्भावरञ्जिता कारा प्रणमावे ऊहुर्भुः पवित्रं चरितं यस्या पवित्रम् जीवनं तथा पवित्रता स्वरूपिण्यै तस्यै कुर्मो नमो नमः देवीं प्रसन्ना प्रणता ति हन्त्रीं युगधर्मपात्री ॐ सारदाम्भ त्रिविज्ञानदात्री दयास्वरूप प्रणमानिरेत्यं हे हेन्द्रद्मनुस्मदीयं दोषान् शेषान् गुणीकरोषि अहेतु नानो दयसे स दोषान् स्वाङ्गे गृहीत्वा यदि त विचेत्र तस्य दमातन नित्यं भवस्ने अवते भवते सुतेसु देवैकबिन्दुं तिरदचेते विशेषचेत् कुरुनशान्तं जनली शारदां देवीं रामकृष्णम् जगद्गुरुं पादपद्मे तयो श्रुत्वा प्रणमाभि मुहु